भागवत श्रीमद्भागवहापुराणादश स्कंध अथ हंस रूप से सनकादि को दिए हुए उपदेश का वर्णन श्रीभगवाच सत्व रजस्तमी गुणा बुद्धे नात्म सैन सत्वे न्यतमो सत्वेन सत्च सत्त्वाद्धर्मो भवेद्वृद्धान् पुंसो मद्भक्तिलक्षणः सात्त्विकोपासया सत्त्वं ततो धर्म प्रवर्तते धर्मो रजस्तमो हन्या सबुद्धिरनुत्तमः आशुनस्य तन्मूलो ह धर्म उभयेहते आगमोपप्रजादेश कालकर्म च जन्म च ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धा प्रचक्षते निन्दन्ति तामसं राजसं तदुपेक्षितं सात्विकान्येव सेवेत पुमां सत्त्वविद्धये ततो धर्मस्ततो ज्ञानं यावस्मृतिरपोहनम् वेणुसङ्घर्षजो वह्ने दग्भा शाम्यति तद्वनम् एवं गुणं व्यतयञ्जो देह शाम्यति तद्ग्रियः उद्धौ उवाच मर्त्या प्रायेन विषयान् पदमापदां तथापि भुञ्जते कृष्ण तत्कथं स्वखरां स्वखराजवत् श्रीभगवानुवाच अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि उत्सर्पति ततो वैकारिकम् मनः रजो युक्तस्य मनस सङ्कल्प स विकल्पकः ततः कामो गुणध्यानान् दुःसहसाद्धि दुर्मतेः करोति कामवशगकर्माण्य दुःखोदकान् दुःखोदर्काणि शं पश्यन्दजो वेगविमोहितः रजस्तमोभ्यां यद्यपि विद्वान् विक्षिप्तधि पुनः अतन्द्रितो मनो युञ्जन् दोषदृष्टेर्ण सज्जते अप्रमत्तो नियुञ्जीतमनोमय्यर्पयच्छनैः अनिर्विण्णो यथा कालं जीतश्वासो जितासनः एतावान् योग आदिष्टो मत्स्यभ्यै शनकादिभिः सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा उद्धौ उवाच यदा त्वं शनकादिभ्यो येन रूपेण केशव योगमादिष्टवान् एतद्रूपमिच्छामि वेदितुम् श्रीभगवानुवाच गर्भस्य मानसाशनकादयः प्रपक्षो पितरं योगस्य योगस्यैकान्तकीं गतिम् शनकादे ऊचुः गुणे स्वाविशते चेतो गुणाश्चेतसि च प्रभो कथमन्यो न सत्यागो मुमुक्षो रतीतिरुष्णो श्रीभगवानुवाच एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः ध्यायमानप्रश्नबीजम् नाभ्युपद्यत कर्मधीम् स मामचिन्तयद्देव प्रश्नपार तिर्षयाम् तस्याहं हंसरूपेण सकाशम् अगमम् तदा दृष्ट्वा मां त उपब्रज कृत्वा पादाभिवन्दनम् ब्रह्माणमग्रत कृत्वा प्रपक्षो को इत्यहं मुनिभिः प्रेक्षत्तत्त्वजिज्ञासुभिस्तदाम् यदुवोचमहं तेभ्य तदुद्धवलिबोधमे